अथ तृतीयाष्टके पञ्चमः प्रश्नः प्रारम्भः सत्यम् प्रवद्ये रतम् प्रपद्ये अमृतम् प्रपद्ये प्रजापदे प्रियान्तनुमना ताम् प्रपद्ये इदमहम् वन्ददशेन वद्रेण तिशन्तम् ोऽस्मान्वेष्टिन्द्रभयम् विश्वः भोर्भवस्वः किम् देवाञ्जिकादिशुम् नयोः विनये नित्सेषा समिद्धिरञ्जिरः घृतेन वर्धयामसि रक्षाजायविष्ट्या सनपृतश्रवायम् रक्षादेव विलाससि बृहदग्ने स्थिरः समाग्सि दर्शतः समग्निरिध्यते वृषा वृषाग्निः समिध्यते अश्वानदेववाहनः अग्नः विष्णुन्दते वृषणन् वा वयम् वृषणा समिधीमहि अग्नेतीर्यतम् बृहद अग्निन्दोतम् गृणीमहे होदाहम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् विध्यमानाध्वरे नपभागायत्य स्वजिज्ञेस्तस्मै महै समृद्धाकर्धा देवा निक्षस्वधर समाह मेवाडसि आजहौतदवस्यता खञ्ञम्रैत्यथेरे प्रेतलंहनानम सम्मरोहमित्रोत्ने ताम् वत्थन्दिमदधर्मदिष्टाः त्वेवससुशुननानिसन्दो योयंपादस्वस्तिवेत्सदानः खञ्ञेभागं कसिब्राह्मणभारत असामसो येवेतवन्द्ध ेवम् परिभूरसिजमानाय अग्निमग्नवः सोममावः अग्निमावः ोत्रम् वेत्प्रावित्रम् स्म वयम् ्यान् अवस्यामनवस्यान्त्यस्य बिन्दु तनोऽनुपादग्नहाच्यस्य वेदु विडोहग्नः हरिरग्नहाच्यस्य वेदो स्वाहाग्निम् स्वाहा स्वाहाग्निम् स्वाहा प्रजापुलिम् स्वाहाग्नीमो स्वाहेन्द्राग्नी स्वाहेन्द्रम् स्वाहा महेन्द्रम् स्वाहा देवागो आज्यपान् स्वाहाग्निमोहोत्राद्युषाणाज्यस्य वेन्दो अग्निर्वृत्राणि द्रविणस्यर्विपन्यया समिद्ध शुक्र आहुतःग्निराज्यस्य वेदो त्वमो समासि सत्पदे त्वमो राजोतवृत्रः त्वम् भद्राकृतो श्वाणस्व महाज्यस्य हविषो वेदो अग्निः प्रत्नेन जन्मना शुम्भाविर्विप्रेण श्वाणो अग्निराज्यस्य वेदो सामष्ट्वा भयम् प्रत्ययामोपचो नाविषा श्वाणस्वस्य हविषो वेदोद्धाः पृथिव्या अयम् चित्रानियुग्भ्यश्च ते शिवाभिः दिवि मोत्थानम् दृशे सुवर्षाम् विश्वामज्ञेयविषयव्यवाहम् प्रजापतेनत्वदेतान्य विश्वाजातानि परिताबभूवत्कामास्तेजोमस्तन्नास्तो रयीणाम् स सोडग्भुवत्स भुवत्पुनर्मकः सत्यामो नीक्षगुमसुभः स विश्वाभवोभवत्सा भवत् यत्नेषामासमेतसा सहो देवनदङ्गिरः सन्देहत्रा इवमेतानि दिविरोचनानि यत्श्च सोमसकृतोमापमञ्जलम् गृहीतान् इन्द्राग्नादिवः सत्ताञ्जलप्रवीर्यम् क्षिणे नामसूने ृते महागोविन्द्रोदाः देवागुतो जयस्ते नामस्यायजष्ठतम्ने प्रियानिमस्य प्रियाधामानि अयाडग्ने प्रियापदे अयाडिन्द्राज्ञयाडिन्द्रस्यमानि अयानामाजिवानाम् प्रियाधामानि यक्षदग्ने राधामानि यक्षं महिमानम् आयज रामे पावकशो ्वेताम् महोदासप्तहोत्राः सप्तहोत्राहर्षभासहर्षभाेदाक्षस्सखाक्षस्सखाम् हो ऋो बहुदा बहुदे वा स्मागमिडाफेदाम् ऋडो बहुधा बहुतेडी मैत्रावर्णी ब्रह्म देवगुरुभूतम् देव्याधुर्योभूताः मनुष्याः यज्ञपवानो हे यज्ञव सम्मर्थानो भो देवद्यावापृथिवी पूर्वजे रतावरी देवी देवपुत्रे भो दोयञ्जिमानः उत्तरस्यान्दे विद्यायाम्बभूतः भूयसः विष्करणोपभूतः दिव्येतामन्नपभूतः इदम् मे देवाः विरतिषन्धामिदस्मन्नबभूतः विश्वास्रियमुभूतम् विश्वस्य प्रियस्योपबोधस्योपबोधः एवम् असोनेवो नराशगुंसः असो नैव सुयस्य वेदो देवो अग्निसृष्ठत्रविणामन्द्रः कविः सत्यमन्मायिनीहोता होत्रहोत्रान् अग्नयान् देवालयाडो अभिप्रेः सदाशीगुहोत्राम् देवम् गमाम् ये देवेश यज्ञमे ओम् वानो अत्र स्मप्रवेदेभयङ्कृतो शम्भवामयो भोगो कोट्यस्वदेज वयस्वदेजा स्ववचनादस्वदेरणाजा अयाराविनि अक्मेर्दमहविरिणसुता अमेयवदतमहोत् जायोऽकृता सर्वे जगत्नोहविरिणसुता अमेयवदतमहोत् जायोऽकृता अक्मेर्दमहविरिणसुता अमेयवदतमहोत् जायोऽकृता प्रजापतिरदमहविरिणसुता अमेयवदतमहोत् जायोऽकृता अक्नेशामाविदकमहविरिणशेता अमेयवदतमहोत् जायोऽकृता इन्द्राग्निर्षत अवीवृदम्यायकृता देवाज्यपाज्यन्त अविवृदन्त महोध्यायो कृताहोत्रेण इदमु हविरीव्यायो कृताया देवमायाम् स्ते सुस्ते सजामस्यामाशास्विष्करणमाशास् तस्मै देवारा सन्ताम् त्या वा पृथिवीमोहरस्पादार्भामश्चेदम् च नमो देवेभ्यः तच्छय्याराम्रीमहे कादुम् विज्ञाय कादुञ्जिज्ञपते देवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः ुष्पदे आहुप्यायश्वरवन्दुनः प्रावन्तु जयवाजसादये याः पार्थिवासो या अपामविवृते तानो देवी स्वर्म यच्छाज्ञापि देवपत्नीः इन्द्राण्यज्ञायि श्रीराडवारोदजीवरुणानि शृणोतु नाम जातवेदाः देवानाम् बृहन्तम् अकारो नस्तेज साधिपहोतकोरथम् धरकोंसः पृथिव्याः उपमारथम् धरकुंसः पृथिव्याः उपयदाम् उपहोतम् वामदेव्युंसहाक्षेण उपमा वामदेव्यकुमुन्तरिक्षेण प्रेदाम् उपभूतम् बृहत् सप्तहोत्रा प्रेदाम् उपभूता धेनसहर्षभा उपमा धनुसहर्षभाेदाम् भक्षस्यमा भक्षस्य हो भूता भूते ी ब्रह्मदेवकृतमुपभूतम् देव्याधर्यवभूताः उपभोता मनुष्याःवान् ये ज्ञवपत्नीमर्थान् वहो देवत्या वा पृथिवी उजेर्तावरी देवी देवपुत्रे वहो देवीजमाना इन्द्राणी वा विधवा अदिनिर्वन्देवैद्यायामुपभूता भूयसुष्करणमुपभूता दिव्येधामन्नुपभूता इदम् मे देवाः वृत्तिषन्धामिति तस्मिन्नपभूता विश्वमस्या प्रियमुपभूतम् विश्वस्य प्रियस्योपभूतस्योपभूतः इति तृतीयाष्टके पञ्चमः प्रश्नः समाप्तः